श्रीमन महात सभापर्वि द्यूतर्वण दुर्योधन संतापे सताप अष्ट्रिशोध्याय शकुनिवाच दुर्योधन नेमर्ष कार्य प्रतिष्ठि स्वानि स्वाडवा भुंजते सदा विधानं विविधाकारं परं तेषां विधानतः अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा आरब्धाश्च महाराज पुनः विमुक्ताश्च नरव्याघ्रा भागधेय पुरस्कृताः तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सहाय सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् अजितः सोऽपि सर्वैर्हि सदेवासुरमानुषैः तत्तेजसा प्रवृद्धोऽसौ तत्र का लब्धश्चानभिभूतार्थैः पित्र्योऽशः पृथिवीपते विवृद्धस्तेजसा तेषाम् तत्र कापरिदेवना धनञ्जयेन गाण्डीवमक्षैयौ च महेषुधि लब्धान्यस्त्राणि दिव्यानि तोषयित्वाहुताशनम् तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः कृता वशे महीपालास्तत्र का परिदेवना अग्निदाहान्मयं चापि मोक्षयित्वा सदानवं सभां तां कारयामाससव्यसाची परन्तपः तेन चैवमयेनोक्ताः किङ्करा नाम राक्षसाः वहन्तितां सभां भीमास्तत्र का परिदेवना यच्चासहायतां राजन्मुक्तवानसि भारत तन्मिथ्या भ्रातरोहीमे मे तव सर्वे वशानुगाः